प्रीमत भागवत श्रीमद्भागवत महापुराणादश स्कंधम असद्वितसुदेव जी के पास श्री नारद जी का आना और उन्हें राजा जनक तथा नव योगीश्वरों का संवाद सुनाना श्री कुवाच गोविंद भुजगुप्ता द्वारवत्याम कुह अवासिन्नारदो भीक्ष्णं कृष्णोपासनलालसः को नु राजन्दिन्द्रियवान मुकुन्दचरणाम्बुजम् न भजे सर्वतो मृद्योपास्य मम रोत्तमयी तमेकदा तु देवर्षिं वशुदेवो गृहागतम् अर्चितं सुखमासीनम् अभिवाद्येदमब्रवीत् वसदे उवाच भगवन् भवतो यात्रा स्वस्तये सर्वदेहिनां कृपणानां यथा पित्रोरुत्तमश्लोकवर्त्मनां भूतानां देवचरितं दुःखाय च सुखाय च सुखायैव हि साधूनां तादृशामर्च्युतात्मनां भजन्ति यथा देवां, देवां देवा अपि छा एव सचिवाह साधवो दीनव शराः ब्रह्मस्तथा प्रपेक्षामो धर्मान् भागवस्तास्तव या श्रुत्वा श्रद्धया मुच्यते सर्वतो भयात् अहं किल पुराणन्तं प्रजार्थो भुविमुक्तिनम् अपूजयं नमोक्षाय मोहितो देवमाययाम् यथा विचित्रविश्वनाद्भवद्भिर्विश्वतोभयात् मुच्ये मह्यञ्जसैवाद्धा तथा न साधिसुव्रत श्रीशुकुवाच राजन्नेवं कृतप्रश्नो वसुदेवेन धीमता प्रीतस्तमाह देवर्षि हरे संस्मारितो गुणैः नारज्वाच सम्यगेतद्व्यवसितं भवता सात्वतर्षभ यत्प्रेक्षसे भागवतान् धर्मांस्त्वं विश्वभावनान् सुतोनुपठितो ध्यात आदितो वानुमोदितः सद्य पुनातिसद्धर्मो देवविश्वद्रुहोऽपि त्वया परमकल्याण पुण्यश्रवणकीर्तनः स्मारितो भगवानद्य देवो नारायणो मम अद्याप्युदाहरन्तीममितिहासं पुरातनम् आर्षभाणां च संवादं विदेहस्य महात्मनः प्रियव्रतोनां श्रुतो स्वायम्भुवस्य यः तस्याग्नेर्ध्रस्ततो नाभिरुषभस्तत्सुत स्मृतः तबाहुर्वासुदेवान् सम्मोक्षधर्माविवक्षयाम् अवतीर्णं सुतशतं तस्यासे ब्रह्मपारगम् तेषां वै भरतो ज्येष्ठो नारायणपरायणः विख्यातं वर्षमेतञ्जन्नाम्ना भारतमद्भुतं स भुक्तभोगां तक्वेमां निर्गतस्तपसा हरिम् उपासेनस्तत्पदवीं लेभे वैजन्मभिस्त्रिभिम् तेषां नवनवद्वीपपतयोस्य समन्ततः कर्मतन्त्रप्रणेतार एकाशीति द्विजातयः नमाभवन्महाभागामुनियो ह्यर्थसंस्निह श्रवणा वातरशना आत्मविद्या विशारदाः कविहरिरन्तरिक्ष प्रबुद्ध पिप्पलायनः आविर्हुत्रोथ द्रुमिळश्चमसकरभाजनः त एते भगवद्रूपं विश्वं सदसदात्मकम् आत्मनो व्यतिरेके न पश्यन्तो विचरन्महिम् अव्याहतेष्टगतय सुरसिद्धसाध्य गन्धर्वयक्ष नरकिन्नरनागलोकान् मुक्ताश्चरन्ति मुनिश्चारणभूतनाथ विद्याधर द्विजुगवाम्भुवनानि कामम् तैकदा नि सत्रमुपजग्मुर्यदीक्षयां वितायमानमृषिभिरजं नाभे महात्मनः तान् दृष्ट्वा सूर्यसङ्कासान्महाभागवतान्नृपः यजमानोऽग्नयो विप्रा सर्व एवोपतस्थिरे विदेहस्तानभिप्रेत्य नारायणपरायणान् प्रीतसम्पूजयाश्चक्रे आसंस्थान् यथार्हतान् तान् रोचमानान् शरुचा ब्रह्मपुत्रोपमाननो पप्रक्ष परं पीतपश्रयावनतो नृपः विदे उवाच मन्ये भगवतः साक्षात्पार्षदान्वो मधुद्विषः विष्णुर्भूतानि लोकानां पावनाय चरन्ति दुर्लभो मानसो देहो देहिनां क्षणभङ्गुरः तत्रापि दुर्लभं मन्ये वैकुण्ठप्रियदर्शनम् अत आत्यन्तिकं क्षेमं पृच्छामो भवतो नखाः संसारे संसारेऽस्मिन् क्षणार्धोऽपि सत्सङ्गसेवधीर्णाम् धर्मान् भागवतान् ब्रूत यदिन न श्रुतये क्षमं प्रपन्नाय प्रसन्नप्रपन्नाय दास्यात्यात्मानमप्यजः श्रीनारद् उवाच एवं ते निविना पृष्टा वसुदेव महत्तमाः प्रतिपद्य्या ब्रुवन् प्रत्याशसतर्स्य त्विदं नृपम्